हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे अष्टमोऽध्यायः ब्रह्मोवाच सर्वोऽहं त्रयाधुना गुणानां रूपसंस्थां वै शृणुष्वैकाग्रमानसः सत्सम्प्रीत्यात्मकम् ज्ञेयम् सुखात्रीति समुद्भवय आर्दवं च तथा सत्यं शौचं श्रद्धा धृति अनुकम्पा तथा लज्जा शान्ति सन्तोष एव च एते सत्त्व च जायते निश्चला सदा श्वेतवर्णं तथा सत्त्वं धर्मे प्रीतिकरं सदा सश्रद्धोत्पादकम् नित्यम् अस श्रद्धा निवारकम् सात्विकी राजसे चैव तामसी च तथा परा श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिः तत्त्वदर्शिभिः रक्तवर्णम् रजप्रोक्तम् अप्रीतिकरमद्भुतम् अप्रीति दुःखयोगत्वाद्भवत्येव सुनिश्चिता प्रद्वेषोऽथ तथा द्रोहो मत्सरस्तम्भ एव प्रत्येतव्यम् विच्ेते लक्षणैश्च विचक्षणैः कृष्णवर्णतमः प्रोक्तम् मोहनम् च विषादकुरुत् आलस्यम् च तथा ज्ञानम् निद्रा दैन्यम् भयम् तथा विवादे चैव कार्पण्यम् कौटिल्यम् रोष एव च वैषव्यम् वाति नास्ति परदोषानुदर्शनम् प्रत्येतव्यम् तमाश्वेतै लक्षणैः सर्वथा बुधै सामस्याश्रद्धया युक्तम् परतापोपपादकम् सत्वम् प्रकाशयितव्यम् नियन्तव्यम् रजस्तदा संवर्तव्यम् तमः कामं जनेन शुभमिच्छदा अन्योन्याभिभवाच्चैते विरुध्यन्ति परस्परम् तथान्योन्याश्रया सर्वे न तिष्ठन्ति निराश्रयः तत्त्वम् न केवलम् क्वापि न रजो न तमस्तथा मिलिता च सदा सर्वे तेनान्योन्याश्रया स्मृताः अन्योनामिथुना चैव विस्तारम् कथयाम्यहम् शृणोनार्दयज्ञात्वाच्यते भवबन्धनात् सन्द्रोहोऽत्र न कर्तव्यो ज्ञात्व इत्युक्तम् मया वचः ज्ञातम् तत् अनुभूतम् यत् फलिज्ञातम् फले सति श्रवणाद्दर्शनाच्चैव सपद्यैव महामते संस्कारानुभवच्चैव परिज्ञातम् न जायते श्रुतम् तीर्थम् पवित्रम् च श्रद्धोत्पन्नाच्च राजसि निर्गतस्तत्र तीर्थे वै दृष्टम् चैव यथाश्रितम् स्नातस्तत्र कृतम् कृत्यम् दत्तम् दानम् च राजसम् स्थितस्तत्र कियत्कालम् रजो ेषान् निर्मुक्त कामक्रोधः समावृतः पुनरेव गृहं प्राप्तो यथा पूर्वं तथा स्थितः श्रुतं नान च नानभूतं वै तेन च फलम् यस्मात् अश्रुतं विद्धि नारद निष्पापत्तम् फलं विद्धि तीर्थस्य मुनिसत्तमः कृशे फलं यथा लोके निष्पन्नान्नस्य भक्षणम् सापदेह विकारायै कामक्रोधादय परे लोभमोहस्तथा कृतृष्णा द्वेषो रागसथा मदः असूयैर्षा क्षमाशान्ति पापान्यैतानि नारद न ना निर्गतानि देहात्तु तावत् पापयुतो नरः कृते तीर्थे यथैतानि देहान्न निर्गतानि चेत् निष्फल श्रम एवैक कर्षकस्य यथा तथा क्रमेणा पीडितम् क्षेत्रं कृष्टा भूमि सुदुर्घटा उक्तम् बीजम् हार्घम् च हितावृत्ति उदाहृता अहोरात्रं परिक्लिष्ट रक्षणार्थम् फलोत्सुकः काले सुप्तस्तु हेमन्ते वने व्याघ्रादिभिभ्रजम् भक्षितं चलफै सर्वं निराशश्च पुनः तद्वत् तीर्थमय पुत्र कष्टो न फलप्रद सत्तम समुत्कटं जातं प्रवृत्तम् शास्त्रदर्शनात् वैराग्यं तत्फलं जातं तामसार्थे शुनारद प्रसह्याभि भवन्त्येव तत्र उभे रज समुत्कटं जातं प्रवृत्तम् लोभयो भवत्येव तमस्तत्त्वे तथा उभे तमस्तथोत्कटम् भूत्वा प्रवृद्धम् मोहय योगतः सत्सत्त्वरजसेचोभे सङ्गम्याभि भवत्यपि विस्तरम् कथयाम्यद्य यथाभि भवतीति वै यदा सत्वम् प्रवृद्धम् वै मतिर्धर्मे स्थिता तदा न चिन्तेति बाह्यार्थम् रजधर्मसमुद्भवम् अर्थम् सत्त्वसमद्भूतम् गृह्णाति च न चान्यथा अनायास कृतम् चार्थम् धर्मं यज्ञम् च वाञ्छति तत्विकेष्वेव भोगेषु कामम् वै कुरुते तदा रजसेषु न मोक्षार्थम् तामसेषु पुनः कुत एवम् जित्वा रज पूर्वम् ततश्च तमसोजय सत्त्वं न केवलम् पुत्र तदा भगवति निर्मलम् यदा रज वै त्यक्त सनातना धर्म श्रद्धा प्राप्य सुजती दर्थ समृद्धि तथा सत्तम विन तेना चाग्रह यदा तमोद्धा उत्कटम तम बभूव तदा वेदे विश्वासो धर्म शास्त्रे तथा चाचासी प्राप्य करोती धना द्रोहं सर्वत्र कुरुते न शान्तिमधिगच्छति जित्वा सत्वम् रजश्चैव क्रोधनो दुर्मति दुर्मतिषठ वर्तते कामचारेण भावेषु वितटेषु च एकम् सत्त्वम् न भवति रजश्चैकम् तमस्तथा सहवाश्रित्य वर्तन्ते गुणा मीथो न धर्मिणा रजो विना न सत्त्वम् च रजसत्त्वम् तमो विना न चैवैते वर्तन्ते पुरुष वै समस्ताभ्याम् हीनम् तु केवलं न कदाचन सर्वे मिथुनधर्मानुगुणाकार्यान्तरेषु वै अन्योन्य संस्कृताः सर्वे तिष्ठन्ति न अभियोजिताः अन्योन्यजनका चैव यतः प्रसर्वधर्मिणः सत्यं कदाचित् चर्ज तमसि जनयत्युत कदाचित् तूर्य तमसे मसे जनयत्यपि कदाचित्तु तमस्तत्वरजसी जनयत्युभे जनयन्त्येव मन्योन्यम् मृत्पिण्डश्च घटम् यथा बुद्धिस्थापे बो गुणाकामान् बोधयन्ति परस्परम् देवदत्तो विष्णुमित्र यज्ञदत्तात्रयो यथा यथा स्त्रीपुरुषश्चैव मिथो नौ तथा गुणात्मायान्ति युग्मभावम् परस्परम् रजसो मिथुने तत् तम् तत्त्वस्य मिथुने रजः उभे ते सत्त्वरजसी तमसे मिथुने विदुः नारदोवाच इत्येतत् कथितम् पित्रा गुणरूपम् अनुत्तमम् श्रुत्वाप्ये तत्स एवाहम् ततो पुरुच्छम् इति श्रीमद्देवी भागवते महापुराणे अष्टादशशाद्र्याम् संहितायाम् तृतीयस्कन्धे गुणानाम् रूपसंस्थानादिवर्णनम् नाम, नाम अष्टमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु